चत्वारिंशः सर्गः रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा परिव्राजकरूपेण शशंसात्मानमात्मना ब्राह्मणश्चातिथिश्चैष अलुक्तो हि शपेतमा इति ध्यात्वा मुहूर्तम् तु सीतावचनमब्रवीत् दुहिता जनकस्याहम् मैथिलस्य महात्मनः सीतानाम्नास्मि भद्रम् ते रामस्य महिषी प्रिया उषित्वा द्वादश समा इक्ष्वाकोणान्निवेशने भुञ्जानामानुषान् भोगान् सर्वकामसमृद्धिनी तत्र त्रयोदशे वर्षे राजा मन्त्रयत प्रभुः अभिषेचयितुम् रामम् समेतो राजमन्त्रिभिः तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने कैकेयी नाम भर्तारम् ममार्या याचते वरम् परिगृह्यतु कैकेयी श्वशुरम् सुकृते न मे मम प्रव्राजनम् भर्तुर्भरतस्याभिषेचनम् द्वावयाचत भर्तारम् सत्यसन्धम् नृपोत्तमम् नाद्यभोक्ष्येन च स्वप्स्येन पास्येन कदाचना एष मे जीवितस्यान्तो रामो यदभिषिच्यते इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः अयाच तार्थैरन्वर्थैर्न च याच्ञाम् चकारसा मम भर्ता महातेजा वयसा पञ्चविंशकः अष्टादश हि मम जन्मनि गण्यते रामेति प्रथितो लोके सत्यवाञ्छीलवाञ्छुचिः विशालाक्षो महाबाहुः सर्वभूतहिते रतः कामार्तश्च महाराज पिता दशरथः स्वयम् कैकेय्याः प्रियकामार्थम् तम् रामम् नाभ्यसेचयत् षेकाय तु पितुः समीपम् राममागतम् कैकेयी मम भर्तारमित्युवाच द्रुतम् वचः तव पित्रा समाज्ञप्तम् ममेदम् शृणु राघवा भरताय प्रदातव्यमिदम् राज्यमकण्डकम् त्वया तु नववर्षाणि पञ्च वने प्रव्रज काकुत्स्थपितरम् मोचयामृतात् तथेत्युवाच ताम् रामः कैकेयीम कुतो चकार तद्वच श्रुत्वा भर्ता मम दृढव्रतः दद्यान्न प्रतिगृह्णीयात् सत्यम् ब्रूयान्न चानृतम् एतद्ब्राह्मणरामस्य व्रतम् धृतमनुत्तमम् तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् रामस्य पुरुषव्याघ्रः सहायः समरेरिहा सभ्राता लक्ष्मणो रामब्रह्मचारी दृढव्रतः अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तम् मया सह जटितापसरूपेण मया सहसहानुजः प्रविष्टो दण्डकारण्यम् धर्मनित्यो दृढव्रतः ते वयम् प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः विचरामद्विजः श्रेष्ठवनम् गम्भीरमोजसा समाश्वसमुहूर्तम् तु शक्यम् वस्तुमिह त्वया आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् रुरोन् गोधान्वराहांश्च हत्वादायामिशम्बहुः सत्त्वम् नाम च गोत्रम् च कुलमाचक्ष्वतत्त्वतः एकश्च दण्डकारण्ये किमर्थम् च रसिद्विजा एवम् ब्रुवत्याम् सीतायाम् रामपत्न्याम् महाबलः प्रत्युवाचोत्तरम् तीव्रम् रावणो राक्षसाधिपः येन वित्रासिता लोकाः स देवासुरमानुषाः अहम् स नाम सीते रक्षो गणेश्वरः त्वाम् तु काञ्चनवर्णाभाम् दृष्ट्वा कौशेयवासिनी रतिम् स्वकेषु दारेषु नाधिगच्छाम्यनिन्द्रिते बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः सर्वासामेव भद्रम् ते ममाग्रमहिषी भव लङ्का नाम समुद्रस्य मध्ये मम महापुरी सागरेण पिकक्षिता निष्टा गिरीमूर्धनी त्र सीते मैं साध वन विचरष्यसी न चा वनवास सेपृयिष्यसी भाविनी पंचदा सहस्रा सर्वाभूषिता सीते पिचर भारासी मे यदी रावणे नुक्ता तो कुता प्रत्युवाचानवद्याङ्गीतमनादृत्य राक्षसम् महागिरिमि वाकम् यम् महेन्द्रसदृशम् पतिम् महोदधिमि वाक्षोभ्यमहम् राममनोव्रता सर्वलक्षणसम्पन्नम् न्यग्रोधपरिमण्डलम् सत्यसन्धम् महाभागमहम् राममनुव्रता महाबाहुम् महोरस्कम् सिंह विक्रान्तगामिनम् नृसिंहंसिंहसङ्काशमहम् राममनुव्रता पूर्णचन्द्राननम् रामम् राजवत्सञ्जितेन्द्रियम् पृथुकीर्तिम् महाबाहुमहम् राममनुव्रता त्वम् पुनर्जम्बुगः सिंहीम् मामिहेच्छसि दुर्लभा नाहम् शक्या त्वया स्प्रष्टुमादित्यस्य प्रभायथा पादपान् काञ्चनान् नूनम् बहून् पश्यसि मन्दभाग राघवस्य प्रियाम् भार्याम् यस्तुमिच्छसि राक्षस क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः आशीविषस्य वदनाद्दष्ट्रामादातुमिच्छसि मन्दरम् पर्वतश्रेष्ठम् पाणिनाहर्तुमिच्छसि कालकूटम् विषम् पीत्वा स्वस्ति माम् गन्तुमिच्छसि अक्षिसूच्या प्रमृजसि जिह्वया लेढि चक्षुरम् राघवस प्रिया भारियाम गुम्छसी अवसज्य शिला कंठे समुद्र तर्सी सूर्या चंद्रमसौ चोभ पाभ्याम से प्रिया भार् प्रदर्शय अग्नि प्रज्वलित दृष्ट वस्त्रेहर्च कल्याणवृत्ताम् यो भार्याम् रामस्याहर्तुमिच्छसि अयोमुखानाम् शूलानामग्रे चरितुमिच्छसि रामस्य सदृशीम् भार्याम् योऽधिगन्तुम् त्वमिच्छसि यदन्तरम् सिंहसृगालयोर्वने यदन्तरम् स्यन्दनिका समुद्रयोः सुराग्र्यसौवीरकयोर्यदन्तरम् तदन्तरम् दाशरथेस्तवैव च यदन्तरम् काञ्चन सीसलोहयोर्यदन्तरम् चन्दनवारि पङ्कयोः यदन्तरम् हस्तिबिडालयोर्वने तदन्तरम् दाशरथेस्तवैव च यदन्तरम् वायसवैनतेययोर्यदन्तरम् मद्गुमयोरयोरपि यदन्तरम् हंसकगृध्रयोर्वने तदन्तरम् दाशरथेस्तवैव च तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपालौ हृता पितेऽहम् न जराम् यथा मक्षिकया बकीर्णम् इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरम् तम् गात्र ेपमानामुपलक्ष्यसीताम् स रावणो मृत्युसमप्रभावः कुलम् बलम् नाम च कर्म चात्मनः समाज चक्षे भयकारणार्थम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः